नारायणीयं दशकम् 83 त्री मल्टिपुल् रामेध गोकुलगदे प्रमदाप्रसक्ते हूदानुपेदयमुना दमने मदान्धे स्वैरं समारमधिसेवकवादमूढोदो धन्ययुङ्गौण्ड्रकवासुदेवः नारायणोऽहमवतीर्न इहास्मि भूमौ दस्य किल त्वमपि मामकलक्षणानि उत्सृज्यदानि शरणं व्रज मामि दि त्वां दूदो जगाद सकलैर्हसिदः सभायां दूतेध यादवदि यादोददर्शितवभुक् किल पौण्ड्रकीयं तापेन वक्षसि कृताङ्गमनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपेदचेलं कलायसं निजसुदर्शनमस्य तोस्य कालानलोत्करकिरेण सुदर्शनेन चास्य तन्मित्रकाशिप, जाड्ये चर्दम चा से त्र काशिप शिरोश्या बालगिरा किलाखमे श्रीवासुदेव इधम्ठिंसुज्यम भवदैक्य धिया गतो भूत्को नामकस्य सुकृधं कथमित्यवेयात् काशीश्वरस्य तनयोध सुदक्षिणाख्य सर्वं प्रपूज्य भवदे विहिताभिचारः कृत्या नलं कमपि बाणरणादिभिदैर्बोधैः कथञ्चन वृतै सममभ्यमुञ्चत तालप्रमाणचरणामखिलम् दहन्तीम् कृत्याम् विलोक्य चकिधैः कथितोऽपि पौरैः द्यूतोत्सवे किमपि नो चलितो विभोत्वं पार्श्वस्तमाशु विससर्जितकालचक्रम् अभ्यापदत्यमिदधाम्नि भवन्महास्त्रे हा हेदि विद्रुधवदी खलु कोरकृत्या रोषा सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोषचक्रमपि काशीपुरीमथाक्षीत् सकलु विविधो रक्षोकादे कृतोपकृतिः पुरा कलया मृत्युम् प्राप्तुम् तदा खलदाङ्गतः नरकसजिवो देशक्लेशं सृजन्नगरान्तिके षडिदिहलिना युध्यन्नद्धा पपातलाहदः साम्बं कौरव्यपुत्री हरणनियमिदं सान्द्वनार्थी कुरूणाम् या दस्तद्वाक्यरोषो धृतकरिनगरो मोचयामासः ते कात्याः पाण्डवे यैरिति यदुपृदनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपदे निशेवे सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द